अधदशमस्कन्धः श्रुत्वा चरित्रं कृष्णस्य विस्ताराच्छ्रोतुमुत्सुकः राज्ञा पप्रत्यविनयाच्छुकं ब्रह्मविदाम्बरम् यो रक्ष मां पाण्डवायेन पालितः मत्कथा मधुराश्रोदुम् तद्यशस्त्वरदे मनः यत्कथामृत पानेन तृप्तः सन्तुष्टमानसः क्षुद्धादिकन्न जानेतां कथां वदतु भवान् इत्यादरेण पृष्टौ सौ शुको ब्रह्मर्षिसप्तमः अभिनन्द्यप्रश्नसारमेवोचत् कृष्ण सत्कथां गोरूपधरया भूम्या द्रुहिणो भारतप्तया देवैर्विषण्णैः सम्प्राप्य क्षीराग्धिं प्रार्थयद्धरिम् अवतीर्य यदोर्वंशे हरिष्यामि भुवो भरं यदि प्रोक्तो भगवदा हृष्टो ब्रह्मा जगामतैः वसुदेवस्य देवक्यां जातस्वस्य विनाश कृत इति ज्ञात्वा देववाण्या कंसस्तौ समपीडयद पुत्रषट्के कंसहदे सप्तमो योगमायया आकृष्य रोहिणीं नीतो रामो वर्धद गोकुले भगवान् श्रावणे मासे कृष्णाष्टम्यां शुभे दिने देवकी भाग्यदो जादो लोकरक्षणकाम्यया वसुधे वसुदं दृष्ट्वा दिव्यरूपधरं हरिम् आनन्दजलधौ मग्नस्तुष्टावपुरुषोत्तमम् पुत्रं दृष्ट्वा हृषिकेश्यं दिव्यलक्षणयक्षितम् अगमत्परमानन्दम् देवगी दिव्यरूपिणी लीने प्रपञ्चे प्रलये योगनिद्रा योगनिद्रामुपाश्रुतः त्वमे वैवदु वधु एक सर्वज्ञस्वात्मा विराजसे सर्पग्रस्तो यथा भेगो भेगमन्यन्न रक्षति एवं मृत्युवश्यो लोको रक्षदन्यं कथं भयाद तत्पादं सेवमानानां भयं मृत्योर्निवृतदे अत स्वामेव सेवन्ते ज्ञानिनः यदि स्तु दोहरिर्मात्रा गोकुलम् नयमामिति आदिश्य पितरम् त्रस्थम् बालरूपो भवस्तदा पिता कं सभियाघृष्णन्मुक्त्वा तम् गोकुले शिष्युम् तत्र जाताम् योगमायाम् गृहीत्वा पुनरागमद कंसो विमोहिदो योगमायया साधु हिंसने आयोर्यशोहानिकरे प्रवृत्तो भूताधार्मिकः दत्त्वा मुक्तिं पूतनायैस्तन्यपानेन केशवः शकटोच्चाटनं कृत्वा तृणावर्तं व्यनाशयद गोकुले वसतोर्गर्गो वसुदेवस्य पुत्रयोः चकारनामकरणं रामकृष्ण इति क्रमाद गोपिकानां मनकर्षञ्चौर्यनर्दनविभ्रमैः मात्रे मृद्भक्षणव्याजाद्विश्वरूपमदर्शयद पुलूकले मातृबद्धकर्षस्तद्यमलार्जुनौ पादयित्वा हरिर्मुक्ता वकरोऽध्यक्षपुत्रकौ पुलिन्द्यैफलदायिन्यैरूपमोहितचेतसे रत्नान्यमूल्यानि ददौ कृष्णप्रीतिवशं वदः वृन्दावनम् सम्प्रविश्य हत्वा वत्सासुरं हरिः पकं पकानुजमखं सर्परूपं व्यनाशयद वत्सपालस्वरूपेण सार्वात्म्यं स्वस्य दर्शयन् चतुर्मुखं मोहयित्वा स्तुतस्तेनागमव्रजम् रामेण खादयित्वा ग्रन्थे नुकं ह्रदाद उद्वास्य कृष्णपीत्वाग्निमरक्षद्व्रजवासिनः हदप्रलम्बो रामेण बालामुक्तादवाग्निदः वेणुगीतं स्मरन् व्यस्ता गोपीकाध्यानमास्तिदाः अनुगृह्यतु गोपीस्ता प्रसादेन वस्त्रापहरणचलद यज्ञपत्नीप्रसादेन पूजा विद्या तव्याजेन मदमिन्द्रस्य नाशयन् गोवर्धनं समुद्धृत्य स्तुतस्तेन व्यरोचद स्नानादिकालेऽपि दरं द्वादशस्यामसुराहृदम् विमोच्य भोपान् वैकुण्ठं हरिप्रादर्शयत् परं श्रुत्वा वेणुध्वनिं रात्रौ यमुनातीरमागत्य ददृशुर्जगदीश्वरं रुद्रागोप्यो बन्धुभिस्वैर्यमुनातीरवासिनं प्रियं प्रेम्णा मुक्ताः परं पदम् सम्प्राप्ता गोपिका यूयमा किमर्धं यूयमागताः त्यक्त्वा रात्रौ गृहाणे तद्वनमित्यब्रवीत् प्रभुः यथा सन्न्यासिनः सर्वं त्यक्त्वां शरणं गदाः तथा त्वां प्रियमात्मानमीश्वरं वयमाश्रिताः नेत्रासेचनकं रूपं गुणान् परममङ्गलान् अनुभूय वयं पादसेवां कर्तुमिहा गदाः यदि प्रोक्तो गोपि काभिकृष्णकमलोचनः आत्मा रामो योगशक्रियारमयामा सता स्त्रियः मदं सौभाग्यजं तासां वीक्ष्यतं शमयन् हरिः अन्तर्हितस्तु दस्ताभिप्रसाद मकरोत्पुनः रासोत्सवे विहरदा स्वतन्त्रोणोर्ध्वरेदशा निगृहीतकाम एव गोपी नामात्मरूपिणा सुदर्शनाय गन्धर्वं शापा सर्पस्वरूपिणम् गृहीतवन्दं नन्दं स पादस्पर्शादमोमुचद यक्षं हत्वा शङ्कचूडं रामायादाच्छिरोमणिं गास्त्र स यन्दं वृषभमरिष्टमवधीधरिः नारदप्रेरिदकंसश्चाणूरादिसहायवान् अक्रूरं प्रेषयामास कृष्णा नयनकाम्यया अत्वा केशिनमायान्दमस्वरूपिणमीश्वरः प्रोत्साहितो नारदेन व्योमा सुरमनाशयध कंसेन प्रेरितो क्रूरो भगवद्दर्शनोत्सुकः विस्मृत्यान्यत्पथि ध्यायन् कृष्णमेव व्रजम् यय कृष्णस्य दर्शनजन्म सार्धकं मे भविष्यदि कटाक्षिधकेशवेन बन्धान्मुक्तो भवाम्यहम् यदि ध्यायन् दृष्ट्वा तौ रामकेशवौ प्रेम्णा सम्भोजिदस्ताभ्यामवोचत्कं सचेष्ठितम् तथृ भगवान् कृष्णो नन्द गोपादिभिः सह तप्ता गोपि समाश्वास्य मधुराम् प्रतिनिर्ययौ अक्रूरम् दर्शयित्वा तु वैकुण्ठं व्यमुनाजले स्तुतस्तेन प्रहृष्टेन सम्प्राप मधुरां हरिः समायान्तम् राजमार्गे दृष्ट्वा नेत्रमनोहरम् प्राभु मधुरा पुरवासिनः निहत्य रजकम् कृष्णः सम्प्रसाद्य च वायकं मालाकारसुदाम्नेजमहदीं सम्पदं ददौ चन्दनार्पणपुण्येन कुब्जामृज्वीं अत्वा कुपलया पीडं मार्गं रुन्धन्तमच्युतः रामेण सखिदुरङ्गं रसरूपी समाविशद मल्लान् हत्वा मुष्टिकादीन् कं सं केशे गृहीत्वा भूमौ वै निपात्यन्यवधीधृतं विमोच्यमादापि दरौ ताभ्यां राज्येभि राज्येभिक्षिच्योऽग्रसेनं नन्दमाश्वासयद्धरिः उपनीतौ जगर्गणरामकृष्णौ यथाविधि विद्या सर्व जगृहदुर्गुरो सान्दीपिनेर्दृतं गुरोपुत्र मृदं सिन्धौ समानीयस्वतेजसा दक्षिणात्वेन दत्त्वा तौ पुरीमा जक्मदुर्मुदा उद्धव कृष्णसन्दिष्टो नन्दगोकुलमागधः यशोदानन्दयोर्भक्तिं स्तुवन् गोभिर्ददर्श च तासां भक्तेः पराङ्काष्ठामन्यविस्मृतिपूर्विकाम् दृष्ट्वानन्दां बुधौ मग्नस्तास्तुवन्मधुरां व्ययौ कृत्वा प्रसादं कुब्जाय अक्रूरेण समर्जितः कृष्णत्वाश्वासयत्तेन पाण्डवान् शत्रुपीडितान् जित्वा युद्धे जरासन्धं ससैन्यं यवनं तथा निहत्य तत्स्तुतः पुरमाययौ अष्टादशे मागधस्य समरे मधुराम् त्यजन् कृष्णो विश्वकर्म विनिर्मिताम् लक्ष्मीसाक्षाद् रुक्मिणीरि भीष्मकस्य महात्मनः सुधा कृष्णगुणान् श्रुत्वा साधुभ्यस्तत्पराभवत् रुक्मिणा भगवत् द्वेषाचिशुपालायधिस्थिता सा दुःखिता दत्तपत्रहरये प्राहिणो द्विजम् रूपम् नेत्रोत्सवम् दिव्यान् गुणान् श्रुत्वा मनो मम त्यक्तलज्जम् समाविश्य निःशङ्कम् रमदे गत्वा देव्यालयं पूजाम् समाप्य पुनरागदाम् मां गृहीत्वा नयेधाश्चेन्न भवेत् बन्धुभिक्खलीः पात्रमेवं प्रसादस्य न भवेयमहं यदि त्यक्त्वा देहं तपस्तप्त्वामेव प्राप्नुयामहम् यदि पत्रस्थसन्देशं श्रुत्वा विप्रकाशितम् कृष्णो दिव्यरथा जूढकुण्डिनं पुरमाययौ दुष्टान् राज्ञस्तिरस्कृत्य गृहीत्वा रुक्मिणीं हरिः देव्यालयात् समायादां स्थापयित्वा रथे ययौ वैरोप्यं रुक्मिण कृत्वा प्रविश्यद्वा यथाविधानं रुक्मिण्या विवाहमकरोत् प्रभुः लक्ष्म्या समेदं रुक्मिण्या रत्नपीढस्थितं हरिं कल्याणवर्षं दृष्ट्वा पुर्जना सर्वे परां मुदं रुद्रेण मन्मथो दग्धो रुक्मिणी गर्भजः पुनः निहत्य शम्बरं मृत्या सहाययौ कृष्णो रत्नम् जहारे दिप्रोच्य पुनर्भिया दत्तां सत्रा जिदाभा मां हृष्टः सञ्जगृहे हरिः हृदरत्नं जाम्बवन्तं स्वापवादिनवृतये जित्वा रत्नं जाम्बवतीं गृहीत्वा कृष्ण आगमत सत्राजिधिहदे कृष्णो रत्नार्थं शतधन्वाना तं हत्वा दिव्यरत्नं तदक्रूरे संन्यवेशयद कालिन्दीं भक्तिसम्पन्नां विवाह्य च यथाविधि स्वयंवरे मित्रविन्दां स्वीचक्रे जगदीश्वरः दूर्दान्तान् वृषभान् जित्वा सत्यां सौन्दर्यशालिनीम् अयोध्याधिपदे कन्यामागृह्णात् भगवान् मुदा भद्रां केकयराजस्य कन्यां, के कन्यां परिणयन् हरिः मद्रसुदां मद्रसुधां लक्ष्मणां लक्ष्यभेतदः निहत्य नरकं तेन रुद्धा कन्या विमोच्य सः रत्नादिकां स्तेन हृदान् गृहीत्वेन्द्रपुरं ययौ दत्त्वा शक्राय रत्नादीन् पारिजातं हरन् हरिः द्वारकामागमधृष्टो मदमिन्द्रस्य नाशयन् विमोचिताराजकन्या प्रार्थयन्ति स्वसेवनम् योगैश्वर्यादेकलग्ने स्वीचकार यथाविधि एकान्तसमये ताभिर्नर्मलापात् परं प्रियं ज्ञात्वा योगेश्वरकृष्णो गृहासकृत इवा बभौ सञ्जाता बहवः कृष्णस्य परमात्मनः तेजस्विनो बलिष्ठाश्च विद्या बन्धो विरे गिरे निहत्य रुक्मिणं द्यूते धृतं रामेण पौत्रं रोचनया युक्तं गृहीत्वा पुरमागमद अनिरुद्धकृष्णपौत्रो विहरन्नुषया मुदा बद्धो बाणेनाखि पाशैर्दुःसहैराकुलो श्रुत्वा तत् केशवो रुद्रमो जित्वा बाणं विनिर्मोच्य पौत्रं नगरमागमद अज्ञानाद्धां ब्राह्मणस्य हृदबन्धं सुधार्मिकम् उद्धधारनृकं कृष्णकृतलासस्वरूपिणं बलरामो व्रजं गोपीभिर्विहरन्मुदा हलेनाकृष्य कालिन्दीं तस्तुतो भान्महाबलः वासुदेवोऽहमेवेदि भावयन् पौण्ड्रककलः अनुकृत्या भावनया तद्धतस्तत्पदं व्ययौ साधून् हिंसन् सुदुर्वृत्तो द्विद्वितो बलवान् कविः पपादरामेण हदकृधा रैवतके गिरो बद्धसाम्बानधर्मेण लक्ष्मणाय स्वयंवरे कौरवानाशयन् सर्वान् रामः पुरमुदक्षिपद नगरं तत्पदद् गङ्गावारिनिप्रेक्ष्य कम्पितैः पुत्रं सलक्ष्मणं साम्बं गृहीत्वा पुरमाय यौ योगैश्वर्यं केशवस्य दृष्ट्वाश्चर्यसमन्वितः प्रदिगेहं नारदस्तत्पादौ नत्वा दिवं ययौ श्रुति स्मृत्युदिदं कर्म पुरुषार्थप्रथं नृणां राजसूयमनुष्ठादुं प्रार्थितो जातशत्रुणा इन्द्रप्रस्थम् गत श्रीमान् राज्ञा प्रीत्यार्चितो भवद जरासन्दम् द्वन्द्वयुद्धे भीमेनाखादयद्धरिः जित्वार्जुनादिभिः सर्वादिश्य सम्पद आहृदाः राजसूये अग्रपूजायाम् भगवन्तमधिक्षिपन् चैद्यश्चक्रेण निहतः सम्प्राप परमम् पदम् समाप्तराजसूयोऽसौ धर्मपुत्रो मुदं ययौ मोहितो मयशीलेन ययौ दुर्योधनक्रुधा निहत्य साल्वं भगवान् दन्तवक्त्रम् विदूरधम् कुरु भूवो भारमबाहरद अत्वा पौराणिकं सूतं रामः पल्ल्वलनिग्रहं कृत्वा तीर्थान्यडन्यज्ञायैर्विरेजे धूतकल्मषः कुचेलो भगवद्भक्तो यदृच्छालाभतुष्टधीः विरक्तसर्वभोगेभ्य निरदो भवद दारिद्र्यात् क्षुब्धया साध्व्या पत्न्या सम्प्रार्थितो द्विजः कृष्णसन्दर्शनम् लाभो जन्मनोऽस्येत्यचिन्तयत् गृहीत्वा पृथुकम् पत्न्या दत्तं भगवदालयं प्राप्तो हर्षा सत्कृतो भूत् कृष्णेन परमात्मना स्वयमादाय पृथुकं प्रशस्य करुणानिधिः देवैरपि सुदुष्प्रापमैश्वर्यं समदाधरिः कृष्णेनानुमदो मार्गे स्मरं तद्गुणवैभवम् असक्त एव भुञ्जानो ध्यानान्मोक्षमवापसः सूर्यग्रहे कुरुक्षेत्रे समवेदास्वबन्धुभिः विद्याह्रकुशलप्रश्नपूर्वकं यादवा मुदा दृष्ट्वा ध्यानाशुद्धचित्ता गोपिका भगवांस्तदा कृपया तत्त्वमादिश्य कृतार्था अकरोन्मुदा रुक्मिण्यादिमुखा श्रुत्वा कथामुद्वाहगोचरा द्रौपदी परमानन्दभरिदा भगवदद्भुताम् महर्षयोगीं दृष्ट्वा सत्कृतास्तेन सादरं वसुदेवं याजयित्वा यदेच्छमगमंस्तदा वसुदेवायोपदिश्य तत्त्वं सङ्ग्रहद प्रभुः हदान् पुत्रान् दर्शयित्वा मात्रेताननयद्दिवम् अर्जुनो यदि वेषेण गृह्णन् सुभद्राम् प्रययौ कृष्णेनानुमधपुरम् बहुलाश्व जनकश्रुतदेव इति द्विजः उभौ कृष्णस्योपदेशाद्बन्धान् मुक्तौ बभूवधूः सर्वज्ञम् जगदो हेदुं वेदा निर्विशेषसूचयन्ति नेदीत्यन्यनिषेधतः यदि वेदार्थविस्तारं सनन्दनमुखोद्गतं नारायणो नारदाय प्रावोचत्कृपयान्विदः वृकाय दत्त्वा गिरीशो वरं तेन विहिंसिदः वाङ्माधुर्येण तं हत्वा केशवेन विमोचितः सत्त्वोत्कर्षपरीक्षायै मुनिभिः प्रेक्षितो भृगुः नारायणस्य पारम्यं परीक्ष्य समवर्णयद द्विजसूनून् दर्शयितुं स्वलोकं प्राप्य केशवः दर्शयित्वा मूलरूपमर्जुनस्याहरन् मदं एवं योगेश्वरकृष्णो धर्मान् लोकार्थमाचरन् प्रियाभिरनुरक्ताभिर्विहरन्नवसत्पुरे इति दशमस्कन्ध